नवनवतितमोऽध्यायः शान्तनुवाच आपवो नामकोऽन्वेष वसूनाम् किम् च दुष्कृतम् सर्वे मानुषीम् योनिमागताः अनेन च कुमारेण त्वया दत्तेन किम् कृतम् यस्य चैव कृते मानुषेषु निवत्स्यति ईशा वै सर्वलोकस्य वसवस्ते च वै कथम् मानुषेषूदपद्यन्त तन्ममाचक्ष्वजाह्नवी वैशम्पायनौवाच एवमुक्ता तदा गङ्गा राजानमिदमब्रवीत् भर्तारम् जाह्नवी देवि शान्तनुम् पुरुषर्षभ गङ्गोवाच यम् लेभे वरुणः पुत्रम् पुरा भरत वसिष्ठनामा स मुनिः ख्यात आपव इत्युत तस्याश्रमपदम् पुण्यम् मृगपक्षिसमन्वितम् मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुमुमावृतम् स वारुणिस्तपस्तेऽपि तस्मिन्भरत वने पुण्यकृताम् श्रेष्ठः दक्षस्य दुहितायात् सुरभ्यभ्ता गा प्रजाता कश्यपा भरतर्षभ अग्रहां जगत सर्वकामदुहां वरा तेभे गा तो धर्मा होमधेनुंसारुणि सापसारण्ये वसती मुन सी चचारपु्ये रम्ये चौरपेतभ अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ पृथ्वाद्या वसवः सर्वे देवादेवर्षि सेवितम् ते स तच्च व्यचरन्त समन्ततः रेमि रे पर्वतेषु वनेषु च तत्रैकस्याथ भार्यातु वसोर्वासव वसोर्वासवविक्रम सञ्चरन्ती वने तस्मिन्काम् ददर्श सुमध्यमा नन्दिनी नाम राजेन्द्र सर्वकामधुगुत्तमाम् सा विस्मयसमाविष्टा शीलद्रविणसम्पदा द्यवे वै दर्शयामास ताम् गाम् गोवृषभेक्षण आपीनाञ्च सुदोग्ध्रीञ्च सुबालधिखुरां शुभाम् उपपन्नाम् गुणैः सर्वैः शीलेनानुत्तमेन च एवम् गुणसमायुक्ताम् वसवे वसुनन्दिनी दर्शयामास राजेन्द्र पुरापौरवनन्दन द्यौस्तदाताम् तु दृष्ट्वैव काम् विक्रम। उवाच राजंस्ताम् देवीम् तस्यारूपगुणान् वदन् एषा गौरुत्तमा देवी वारुणे रसिते क्षणा ऋषेस्तस्य वरारोहे यस्येदम् वनमुत्तमम् अस्याः क्षीरम् पिबेन्मर्त्यः स्वादुयो वै सुमध्यमे दशवर्षसहस्राणि सजीवेत्स्थिरयौवनः एतच्छ्रुत्वा तु सा देवी नृपोत्तमसुमध्यमा तमुवाचानवद्याङ्गी भर्तारम् दीप्ततेजसम् अस्ति मे मषे लोके नरदेवात्मजा सखी ना जितवती नाम यौवनशालिनी उशी नर से राजर्षे सत्यसंधस्य से दुहिता प्रथिता लोके मनुषे तैहेमग स वत्संगा मेपा आनय स्वामरश्रेष्ठ त्वरितं पुण्यवर्धन यावदस्याः पयः पीत्वा सा सखी मममानद मानुषेषु भवत्वेका जरारोगविवर्जिता एतन्मम महाभाग कर्तुमर्हस्य निन्दित प्रियम् प्रियतरम् ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन एतच्छ्रुत्वा वचस्तस्य देव्याः प्रियचिकीर्षया पृथ्वाद्यैर्भ्रातृभिः सार्धम् द्यौस्तदाताम् जहारगाम् तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप ऋषेस्तस्य तपस्तीव्रम् न शशाकनिरीक्षितुम् हृतागौ सा तदा तेन प्रपातस्तु न तर्कितः अथाश्रमपदम् प्राप्तः फलान्यादाय वारुणिः न चापश्यत्सगाम् तत्र स वत्साम् काननोत्तमे ततः स मृगयामास वने तस्मिंस्तपो धनः नाध्यगच्छ मृगयंस्ताम् काम् मुनिरुदारधीः ज्ञात्वा तथापनीताम् ताम् ताम वसुभिर्दिव्यदर्शनः ययौ क्रोधवशम् सद्यः शशापचवसूंस्तदा यस्मान्मे वसवो जह्रुर्गाम् वै दोऽग्ध्रीम् सुवालधिम् तस्मात् सर्वे जनिष्यन्ति मानुषेषु न संशयः एवम् शशाप भगवान् वसूंस्तान् भरतर्षभ वशम् क्रोधस्य सम्प्राप्त आपवो मुनिसत्तमः शप्त्वा च तान्महाभागस्तपस्येव एवम् स शप्तवान् राजन् वसूनष्टौ तपोधनः महाप्रभावो ब्रह्मर्षिर्देवान्क्रोधसमन्वितः अथाश्रमपदम् प्राप्तस्ते वै भूयो महात्मनः शप्तास्म इति जानन्त ऋषिम् तमुपचक्रमुः प्रसादयन्तस्तम् ऋषिम् बसवः पार्थिवर्षभ लेभिरे न प्रसादं तस्मात् ते प्रसादम् ऋषिसत्तमात् आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् उवाच च स धर्मात्मा शप्ता यूयम् धरादयः सर्वे शापमोक्षमवाप्स्यथ अयम् तु यूयम् मया शप्ताः द्यौस्तदा मानुषे लोके दीर्घकालम् स्वकर्मणा नानृतम् तच्चिकीर्ष्यामि क्रुद्धो युष्मान्यदब्रुवम् न प्रजास्यति चाप्येष मानुषेषु महामनाः भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः पितुः युक्तः स्त्रीभोगान् वर्जयिष्यति एवमुक्त्वा वसून् सर्वान् स जगाम महान् ऋषिः ततो मामुपजग्मुस्ते समेता वसवस्तदा अयाचन्तच माम् राजन तच्च मया कृतम् जाताञ्जातान् प्रक्षिपास्मान् स्वयम् गङ्गे त्वमम्भसि एवम् तेषामहम् सम्यक् क्षप्तानाम् राजसत्तम मोक्षाथमानुषाल्लोकात् यथावत् कृतवत्यहम् अयम् शापादृशेस्तस्य एक एव नृपोत्तम द्यौराजन्मानुषे लोके चिरम् वत्स्यति भारत तत्रस्ते विवृद्धः पुनरेष्यति अहम् च ते भविष्यामि आह्वानोपगतानृप वैशम्पायन उवाच एतदाख्याय सा देवि तत्रैवान्तरधीयत आदाय च कुमारम् तम् जगामाथ यथेप्सितम् नाम गांगेय इति चाभवत् द्युनामा शान्तनोः पुत्रः शान्तनोरधिको गुणैः शान्तनुश्चापि शोकार्तो जगामस्व पुरम् ततः तस्याहम् कीर्तयिष्यामि शान्तनोरधिकान् गुणान् महाभाग्यम् च नृपतेर्भारतस्य महात्मनः हा। यस्येतिहासोद्युतिमान् महाभारतमुच्यते इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि आपवोपाख्याने नवनवतितमोऽध्यायः